Aum. Dhyayama sabla bakun tan avadi khgejo maj – Stakvang nam chaj loki madavadhi mad такsy me kakke she. Madag Azmi Vattal sap appra Marta Patu khgejo fi mami. कीर्तन आला लापीन श्याम श्याम की मोरदा नंदा ृमेश्वरी नमः मृहेश्वरी मृमेश्वरी नमः ॐ गणपति भवामहे कविं करे एष परा कृष्ण जम्बूनां ब्रह्मनादिवादकः परात् परं न भूते न भविष्यति ओम् ये महात्मनः ये नाम अदमो दिविनये ते शरणं अति वाचेत् त्वं वाजिनीते धीनामपि पवित्रं त्वं वाग्देवि नमः Mm -hmm. we'll success practice is two times together the sesuka huh? and then we'll practice individually because it's not a big one right it's pretty small so maybe we'll get a chance to do the whole thing in day very comfortable with it okay so the body ready yes okay yeah okay 1 2 3 om oh. हरिणीं सुवर्णरम् हिरन्नीं लक्ष्मीं जात वेदो मा वह जात वेदो लक्ष्मीं न पुरुषानहम् अश्वपूर्वां रतमद्यामहस्ति प्रबोधिपक्तिशीर्मा देवि जुषताम् स्मितां हिरण्यप्रां त्रीं तृप्तां तर्पयन्तीं तात्मव यश्वालन्मी प्रियं लोके देव ीमी शरणमहम् प्रपद्ये लक्ष्मीर्हि नश्यताम् त्वाम् वृणीत्य जातो वनृक्षोचुवः फलानि ततसानुभन्तु मायान्तरायाश्च भार्या अलक्ष्मीः उपये माम् देवसक्रीतश्च मैना सहोर्भूतोऽस्मिन् कीर्ति मृदिम् ददातु चेष्टामलकहां नाशयामूषिमस्मृदं च सर्वान् निर्मुद मे चमद्वाराम् दुरादर्शास्य पुष्परां शरीषी ईम् सर्वभूतामनासूतिं वाचः सत्यं वैमहीनां रूपमन्विष्य मही, मही श्रियश्रयताम्यचः श्र प्रजागितामयि सम्भव श्रियम् वासय मे कुले मातरं भ्रमालिनीपस्ृजन्तु शब्दानी स्थिता शली गुरे श्री श्रियदेवीम् मातरभुं श्रियम् वासय कुले आर्द्राद्रा यष्टिं मृङ्गलाम् पद्ममादिनीम् चन्द्राम् किरण्ययी लक्ष्मी जातविदु भावः आर्द्राद्राम् कर्मीम् पुष्टम् गुरुवर्णाम् हीममादिनीम् मयी लक्ष्मी जातवीदो आवहो लक्ष्मीपकामि याव्याम् हिरण्यम् प्राभूतं दावो दाह्योश्वान बिन्दुर्यम् पुरुषाणहम् पद्मप्रिये पद्मिनि पद्महस्ते पद्मलये पद्मदळय साक्षी विश्वप्रिये विश्वमनोनुकूले तत्पादपद्मं मयि सन्निधस्व श्रिये श्रियं वयो जनिद्रुव्य ददातु नासाना अमृतमा वयं यद्य दद्यूय एवं ये वैनं क्रिया संस्कृ च वस्तुत्य सन्ततं सन्धीयते प्रजया पशुभिः यं वेद ॐ मा देवी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदया I लास्ट् आफ़् दो आफ़्टर् विन्दे ऐ तित् and Vishwapriye and then after that we go to Shriyam Jada, that's the last paragraph. If you have the Mantra Pushpam, if you don't have it then uh, you have to see where that is. Okay, oh, okay, okay, okay, go on. So the thing is up to that point all the books have, some of the other books mm -hmm. don't have it. Last paragraph, okay, that's the only thing you okay. can see. Okay, okay. If you sing it, uh, um, yeah, see how there you can get it. Yeah, yeah, I know. Uh, I think some people have it. So you are leading in Malayalam, right? Yeah, I'm reading Malayalam. And also that uh, the Ardhryam Pushkarinim as well as Ardhryam Yakkarinim, I think some of the recordings online, it goes... Uh, it is, it uh, is the, it's the other way around. Actually, someone yeah, has uh, got yeah. this told. Okay, last time I said the thing. is that this is how we were taught but lot of the books they spelled like ardram pushkara nim pushtim bingale pavnamalini nim comes first and then ardram ekkrani nim stim swarnam so essentially this is only little switch but if you are chanting with somebody else if they chant which way you, are, you you just switch according to that okay it's not a big deal so okay. the same meaning okay? okay but this is how i was taught so i just go with that that's come sure. achha And it's not. I don't think it's a big huge difference. In, in, in the Mandra Pashma book it's other way around. Okay? It's Adhraam, Puskarani, Pushtim, Pingalam, Padma, Mahalini is how it's written in the Mandra Pashma book. But we were taught uh, the Adhraam, Yakarani, Mesh, Tim, Pingalam, Padma, Mahalini, Pushtim. Yeah. And I think uh, somebody, I think Sushila Ji or somebody has that Malayalam thing at the end. Okay? So we they answer. To... I can actually, you know, text it to you, that paragraph. No, you have been here. Okay. Okay. Okay. Any other questions or issues? Okay. So let us do one more time. We'll chant together and then we'll practice individually. Okay? Ready? Okay. One, two, okay. three. हरिणी सुवर्णरजतस्रन्द्रता हिरण्यीं लक्ष्मीं सुपी दे आवह मा वह जात देवे लक्ष्मी न पकामी स्यायाम् हिरण्यङ्गेयमकाम् पुरुषानम् अश्वपुरपूर्वारतभव्याद प्रभूमही श्रियं दिवीमुपक्वीर्मदेवी जुषताम् कामृताम् हिरण्यप्राकारमाद्राञ्ज्वलन्तु ताम् कलन्तयताम् पद्मभर्याम् ता पक्तयेष्यम् चन्द्राम् प्रभाताम् यश्लन्तीयम् लोके देवदुष्टा तामम् पद्मी शरणमहम् प्रपवेल नश्यताम् स्वाङ्गने तो ोभियातो वय सोतो तपसं दन्तु मायाय राजा परिमां देव सतश्च मया सह श्री ज्येष्ठा लक्ष्मीं नाशयाम् अहम् न समृद्धिं सर्वान् निर्नोद मे गृहा दवानाम् दुरादर्शाम् नित्यपुष्टाम् करिषि ईश्वरीहुम् सर्वभूता श्रियमहीपक्वयी श्रियम् मन्मस्कान् वाच सत्यम् पशूनाम् रूपमन्नस्य मयि प्रियश्रयतरम् यशः कर्मणेन प्रजाभूता मयि सम्भव कर्तनम् वासेय मे कुलेतरम् पद्ममालीम्सृजन्तस्मितावसी गृहे देवीमातरदम् द्रयले आर्यां यः करिणी यः कलां गलां पद्ममालिमालिनी चन्द्रां हिरण्ययीं लक्ष्मीं जात वेदो पुष्करिष्णी पुष्टिं सुवर्णाम् हि म मानीर्याभ्याम् हिरञ्मयीम् लक्ष्मीम् जात विदुमावह ता मावह जात वीदुक्ष्मी मनपमी यस्याम् हिरङ्ग्यम् प्रदूतम् गावो दास्योस्वानम् पुरुषानहम् पद्मप्रिये पद्मने पद्मविलये पद्मतया यदाक्षी विश्वप्रिये विश्वमनोनुकूले तत्पादपद्मम् मयि सन्निदस्व श्रियजातश्रे आनिल्याय श्रियं वयो जनोद्यो ददातु स्वनामृतत्वमान ददति सद्य इय एवैमं कत्रियाम ददाति पण्डिचावत्कृत्यं सन्ततं तन् दीयते प्रजाय पशुभिः य एवं वेद ओहे च विद्महे विष्णुपत्नी च धीमहि लघो लक्ष्मिप्रचोदय आप Oh. Om shanti shanti yeah. shantihi This te shan te. is teaser for everybody now All right guys Yes Yeah So who wants to try it on their own i can I go i can try it. okay, okay. Oh, go ahead go gayatri no, i need bro i'll go get some water now. <laughs> okay okay i can okay go ahead uh, om hiranya varnaam harineem suvarna rajatasrajaam candraam hirannmayee lakshmee जातवेदो ताम् ताम आवह जातवेदो लक्ष्मीमणपकामिनी यस्याम् हिरण्यम् बिन्देयम् गामश्वम् पुरुषाणहम् अश्वपूर्वाम् रतमद्याम् हस्तिनादप्रबोधिनी श्रियम् देवीमुप्वये क्षीर्मा देविर्जुषताम् काम् सोस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोप्वयि श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् अग्मिनीम् शरणमहम् प्रपप्ते लक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदि त्यवर्णे तपसो दिजातो वनस्पतिस्तव वृक्षोतबिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देवसकीर्तिश्च मणिना सह दुर्भूतोऽस्मिन् राष्ट्रेऽस्मिन् कीर्ति मृदिम् ददातु मे शुक्तिपासामलाम् चेष्टामलक्ष्मीम् नाशयाम् यहं अभूतिमसमृद्धिम् च सर्वाम् निर्नुद मे गृहात् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्ट मसमृद्धिं च सर्वां निर्नुदमे गृहात् गन्धद् द्वाराम् दुरादर्शाम् नित्यपुष्टाम् करीषिणीम् ईश्वरीगुम् सर्वभूताणाम् तामिहोपये श्रियम् मनसत् काममाकूर्तिम् वाचः सत्यमश्रीमही पशूनाम् रूपमन्नस्य मयि श्रियश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भवः कर्दम श्रियम् वासय कुले मातरं पद्ममालिनीम् आपसृजन्तु चिक्लीतवसमे गृहे निच देवी मातरघुं श्रियं वासय मे कुले आर्द्राम् यःकरिणीं यष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीं लक्ष्मीं चातवेदो मावह आर्द्राम् पुष्करिणीं पुष्टिं सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीं जातवेदो मा ताम ताम् माहवजातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रा भूतम् गावो दास्योऽश्वान् बिन्देयम् पुरुषाणहम् पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदळाय ताक्षी विश्वप्रिये विष्णुमनोनुकूले तत्पादपद्मं मयि सन्निधस्व श्रिये जातश्रिये आनिर्याय श्रियं वयो जनिद्रुभ्यो ददातु श्रियं वसाणा अमृतत्वमायन् भजति सद्य सविता विदद्योन् सन्ततमरुचा वष्कृत्यम् सन्ततम् सन्दि यते शुभिः नमस्ते किं सन्तत सन्धीयते प्रजया पशुभिः सन्ततमृचावष्कृत्यं सन्ततं सन्धिकृत्यं सन्ततं सन्धियते कार सन्तत्तं सन्धीयते प्रजया पशुभिः पश् पश्य सन्तत मृ सन्ततमृचा स्पष्टकृत्यं सन्ततं सन्दत्तं सन् सन्द वृष्टा सन्दत् मृचा वृष्टकृत्यं सन्दषट् वषट् वषट् वषट् कृत्यं वषट् कृत्यं सन्दद्ध सन्धियते प्रजा प्रजया पशुभिः य एवं वेद ओ महादेव्यै च विद्महे विष्णुपत्यै च धीमहि तन्नो लक्ष्मी प्रचोदया आत् तन्नो लक्ष्मी प्रचोदया लक्ष्मी दीर्घे okay? okay, तन्नो लक्ष्मी लक्ष्मीः प्रचोदया आत् ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह तां म आवह जातवेदो लक्ष्मीमनपगामिनी िरण्यम् विन्देयम् कामश्वम् पुरुषानश्वपूर्वाथमध्या हस्तादप्रबोधिनी श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम् कां सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहे हो श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् ऋणे आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देवसकः कीर्तिश्च मणिनासः प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षुत्पिप्रासामलाम् ज्येष्ठामलक्ष्मीम् नाश्याम्यहम् नाशयाम्यहम् भूतिमसमृद्धिम् च सर्वाम् निर्णुदमे गृहात् गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ईश्वरेगम् सर्वभूतानाम् दामिहोपह्वये श्रियम् मनसः काममाकूतिम् वाचः सत् पशूनाम् रूपमन्नस्य मयि श्रीश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भवकर्दमा श्रियं वासय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तु स्निग्धानि चिक्लितवस गृहे निच देवीम् मातरगम् श्रियम् वासय मे कुले आर्द्राम् यःकरिणीम् यष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदोम आवहा आर्द्राम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवहा ताम् म आवह जातवेदो लक्ष्मीमनपगामिनी एम् यस्याम् हिरण्यम् प्रभूतं गावो तास्यो श्वान विन्देयम् पुरुषानहम् पद्मप्रिये पद्मिनी पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधस्त्व श्रियेतश्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु श्रियं वसाना अमृत भजति सत्यः सविता विदध्यूना श्रिय एव सन्ततमृचावषट्कृत्यम् सन्धत्तम् सन्धीयते प्रजया पशुभिः य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ शान्ति शान्ति शान्तिः हिरण्यवर्णां हरिणीं सुवर्णरजतस्वजाम् चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवहा तां म आवह जातवेदो लक्ष्मी मनव मनपगामिनी यस्यां हिरण्यम् बिन्देयम् गामश्चम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् देवी श्रियम् देवीमुपह्वये श्रीर्मादेवीर्जुषताम् काम् स्वस्मिताम् हिरण्यप्राहारमात्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् लन्तीम् तृप्ताम् तपयन्ती पत्मे स्थिताम् पद्मवर्णाम् तामिहोपः वये श्रियम् चन्द्राम् प्रभासाम् यशसाज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पत्मिनीम् शरणमहम् प्रपत्ये लक्ष्मीर्मेनश्च ताम् त्वामृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदम् पुयाम्बरायाश्च बाह्या अलक्ष्मीः माम् देवसः कीर्तिश्च मणिनाम् ददातु मे शुक्तिपामलिक्ष्मी नाशयाम्यहम् अभूतिमसमर्थिं च सर्वा निर्नुदनेग्रहाद ग्रन्थद्वाराम् दुराधशाम् नित्यपुष्पाम् करीषिणीम् ईषदीघम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनस काममाहूति वाच सत्यमहीमहे पशूनाम् रूपमन्यस्य मयि श्रीशयताम्यशः कर्तमेन श्रियं मातरम् पद्ममालिनी आपस्रजं चिक्लीतवसंक्लीतवस मे गृहे निच देवी मातरगं श्रिये वासय मे कुले श्रियं कुले आत्रां यत्करणीं यष्टीम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदोम आवहा आर्द्राम् पुष्करणीम् पुष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदोम आवहा आवह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान्निन्देयम् पुरुषानहम् स्वमप्रिये पत्निनी पद्महस्ते पद्मालये पत्मदलाय द्राक्षी विश्वप्रिये विष्णुमनोऽनुकूले पादपत्नं सन्निध स्वा श्रिये अनुर्याय श्रियं जात श्रिय आनिर्याय आर्ग श्रिये जातश्रिय आनिर्याय श्रियं वसना अमृतत्वमायम् भजन्ति सत्य सविधा विदध्यूना श्रिय एवम् तच्छ्रियामादधाति सन्ततमृचावशत्कृतम् सन्धत्तम् सन्धीयते प्रजया पशुभिः य एवं वेदा ॐ महादेव्यै च विस्महे विष्णुपक्षी च धीमहे यात् ॐ शा दि प्लीस् गो नेक्स् हिरण्यवन्दाम् हरिणीं सुबन् जगदत्सजाम् चन्द्राम् हिरण्मयीं लक्ष्मीम् जातवेदो महाभः ताम् आवह जातवेदो लक्ष्मी मनभगामिनी यस्याम् हिरण्यम् दिल्पेयम् रामस्वम् पुरुषानहम् अश्वपूर्वां प्रधमद्याम् हस्तिनाथ प्रबोधिनी श्रियं देवी मुमह्वये केर्मा देवी द्विषतां तां सोषिदां हिरण्यप्राकाराम् आद्रां जरन्तीं कृतां तत्पयन्ती पत्ने सुदां न्द्रां प्रभाम् इशशा जगर्षीं प्रियं योगे देव दुष्टामुदारां तां पत्मनी चरणमहं प्रबध्ये दश्यताम् नृणेम् आदित्यवर्णे कवशोधिजा ो भगिन्द्रः तस्य फलानि तव सानुगन्धो मायां च राजा च भास्या अलक्ष्मी उपैतमाम् देव सह कीर्तिश्च मणिना सह वादर्भूतोऽस्मि रात्रेऽस्मि केतिवृद्धिं ददातु मे सृष्टिवासामलां दृष्टाम् अलक्ष्मीनाचयाम्यहम् अहो दिमसमृद्धिं च सर्वं नन्दे गृहात् दण्डद्वारा धां नित्यपुष्कां कलीषे सर्वपूतानां मनसकाममापूरिं पादमहीमीं वसूनां यतां कृषहां कब्दमेन प्रजाबोधा मयि सम्भव कब्दमां श्रियं वासय मे कुले मातरं पद्ममालिनी आभस्मिजन्द्रसिद्धानि चिक्रीदवस मे गृहे निजदेवीं मातरगं श्रियं वासय मे कुलेम् यत्करणीं यस्ते पिङ्गलां पद्ममालिनी ीं वृष्टिं सुवर्णाम् हिरण्मयी लक्ष्मीं जातवेजो महाभह जातवेजो लक्ष्मी मनवदामि यस्यां हिरण्यं प्रसूतं गावो दास्यो स्वान् ेयं पुरुषाणम् पद्मप्रिये पत्मिनि पद्महस्ते पद्माले पद्मदला यदा विश्वप्रिये विष्णुमणोऽनुकूलो तत्पादपद्मम् अयि सन्निधस्त प्रिये जातप्रिय आनव्याय श्रियं वयोगिनि नृत्यौ ददातु प्रियं ददामृदत्वमायन् सजदि सद्यः सविदािदुन् श्रिय एव सन्ददमृगावसत्कृत्यं संहत्तं सन्धि यदे प्रजया पशुभिः य एवं वेदा ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तनो दक्षिणी प्रचोदयात् ॐ वेरि गुड् ओके ऐ फ़् मेड् आल्सो ए मिस्टेक् श्रियं वसा अमृन् भजन्तिल् भजन्ति और् भजति ओके इस् भजन्ति i think some other people said it right yeah, so i just think i made a mistake by saying sri ambasana amartatvamayan bhajanti sadhya savitavid dyo na is how it is so sorry i think i ought to read last time i did right but this time this a different book i am okay so it has just have the, the dot or the thing i can't yeah, recall perfect okay bhajare vi sadya sadya vidadhi ॐ हिरण्यवर्णां हरिणीं सुवर्णरजदश्रथां चन्द्रां हिरण्मयीं लक्ष्मीं जागवे तो मा वः लक्ष्मी यस्याम वहजातवेतो लक्ष्मीमनपगामिनीं गामश्वं हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् हस्तिनाद रथमध्यां हस्तिनादप्रबोदिनीम् देवीम देवीमु बह्वये श्रीर्मादेवीर्जुषताम् कां सुस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् पद्मे स्थितां पद्मवर्णाम् आमिहो बह्वये श्रियं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ं पत्निनीमीं शरणमहं प्रबध्ये लक्ष्मीर्मे नश्यतां त्वां वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मी उपातु मा देवसखकीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे श्रुत्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वाम् निर्नुद मे गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणी ईम् ईश्वरी गम् सर्वभूतानाम् तामिहो बह्वये श्रियम् मनसः काममाकृतिम् वाचः सत्यमशीमही अशूनाम् रूपमन्यस्य मयि श्रीश्रयताम्यशः कर्दमेन धानिश्चिक्ली तव समे गृहे निज देवीं मातरं श्रियं वासय मे कुले श्रियं निजदे आर्द्रां यकरिणीं यष्टिं पिङ्गळां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जाधवेतोम आवह आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीं ूर्यां हिरण्मयीं लक्ष्मीं जातवेतो म आवह तां म आवह जातवेतो लक्ष्मीं मनपगामिनी यस्यां हिरण्यं प्रभुदं गावो दास्योश्वा आन विन्देयं पुरुषानहं दास्योश्वानश्वानदे ऐ हाव् अल् जस् ट्रै पद्मप्रिये पत्मिनी पद्महस्ते पद्मालये पद्मालया पद्मालये पद्मदलाय दाक्षी पद्मालये पद्मदलाय दाक्षी विश्वप्रिये विष्णु मनोनुकुलेमं मयि सन्निधत्स्व तत्पादपद्मं मयि सन्निधत्स्व श्रियज I think I'll need help here. Okay. Shri Ejada Shri Anir Yaya Shri Ejada Shri Anir Yaya Shri Ejada Shri Anir Yaya Shri Ejada Shri Anir Yaya Shri Amwayo श्रियं जनितृ श्रियं अमृतत्वमायन् भजन्ति भजन्ति सत्य सविताविदध्यून् श्रिय एव श्रिय एवधधाति सन्ततमृजा सन्ततमृजा वषट्कृत्यं वषट्कृत्यं सन्धत्तं सन्धत्तं सन्धीयते सन्धीयते प्रजया प्रजया पशुभिः पशुभिः न एवं वेदा च एवं वेदामही व्यै विद्महे विष्णुपत्नी धीमहि धीमहि ॐ हिरण्यवर्णां हरिणीं सुवर्णरजदस्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जागवेदो म आवह तावह जागवेदो लक्ष्मीमनपगामिनीं यस्यां हिरण्यं विन्देयं गामह्यं पुरुषानहम् अश्वपूर्वाम्रतमद्याम् अस्तिनाथप्रदो प्रबोधिनीं श्रियं देवीमुपह्वे ीर्मा देवीर्जुषताम् हिरण्यप्राकारामाद्रां ज्वलन्तीं कृप्तां तर्पयन्तीं पद्ं पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीम् शरणमहम् प्रबध्ये लक्ष्मीर्मे नश्यताम्, नश्यताम् त्वा आदित्यवर्णे तपसोदिजातो वनस्पतिस्तव शोध्वस्य मायान्त रायाश्च बाह्वालक्ष्मीः बाह्यालक्ष्मीः बाह्यालक्ष्मीः उपैदु माम् देवसगम् श्च मणिना सह प्रादुर्बोधोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्यं ददातु मेपासामलां ज्येष्ठामलं ची नाशाय ृद्धिं <myeham> <myeham> च सर्वां निर्नुदमेघा गन्धद्वारादर्शा नित्यपुष्टां करीषिणीषिणी <myeham> <निश्या नीं। myeham> ईश्वरीगं सर्वभूतानां सामिहोपह्वये श्रियम् कामका, मनस कामकां वाजसत्यशूनां रूपमन्यस्य प्रजाभूदा मयि संभव कर्दमा श्रियं वासय मे कुले मातरं, पद्ममालिनीम् आभसृजन्तु स्निग्धानिक्लीदवस मे गृहे निजदेवी मातरगुं श्रियम् वासय मे कुले आर्द्राम् करणीं यष्टिम् पिङ्गलाम् पद्ममालिनीं चन्द्राम् हिरण्मयीं लक्ष्मीम् जागवेदोम आवहा आर्दाम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेममालिनीदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रबूदम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् नुकूले तत्पादपद्मं मयि सन्दित्वा स्रियं वयो वसाना सद्य सविता त्यभ्यो दधातु ृत्यं सन्दत्तं सन्धि शुभिः य एवं देवादेवे विद्महे विष्णुपत्नी च लीमहि तन्यो लक्ष्मी प्रचोदयाद् ॐ शान्ति शान्ति शान्तिः Is everybody done? Mahesh, you want to go? Mahesh, is she there? Do you want to move or...? I think it's not here. No, he's there. I can see him. He's on mute. Mahesh, you want to go? You're on mute. Maybe he walked off, huh? He's on the phone, but I can't. It's on mute. there yeah, noise come okay mahesh you want to go you are on mute so now you are okay mahesh okay you want to go hurry yeah go ahead i i i i was able to hear you i i don't know maybe my mic okay uh, can i go If everybody yeah, sure, is sure, yeah. everybody okay. is I I I you are the only one because your thing you said on, on... it's uh, muted, so I don't don't know know. why. Okay. Okay, I don't, Okay. Om िरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह तां म आवह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमद्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम् कांसोऽस्मिताम् हिरण्यप्राकारा मार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोतबिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीहि उपैतु माम् देवसकः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिम् ददातु क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिम् समृद्धिम् च सर्वाम् निर्नुद मे गृहात् गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणी ईश्वरीगम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकूतिम् वाचः सद्यमशीमही पशूनाम् रूपमन्नस्य मयि श्रीश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तु स्निग्धानी चिक्ली गृहे निचदेवीम् मातरघुम् श्रियम् वातय यः करिणीम् यष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदोम आवह आर्द्राम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवह ताम् म आवह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् पद्मप्रिये पद्मिनी पद्महस्ते पद्मालये पद्मदलाय दाक्षी विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मम् मयि सन्निधत्व श्रिये जातः वयो चनित्रिभ्यो ददातु श्रियम् वसाना अमृतत्वमायन् भजन्ति सद्यः सविता विदद्यून् श्रिय एवैनं तच्छ्रिया मा दधाति सन्ततमृचा पशकृत्यम् सन्धत्तम् सन्धीयते प्रजया पशुभिः य एवं वेद ओ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ शान्ति शान्ति शान्तिः वेरि गुड् ऐ थिङ्क् गुड् गास्ट् um next week i have a problem i have a meeting at the same time so i don't know whether we should do uh, a, a meeting from 8:30 to 10 p.m so um, then we should do it uh, earlier or if people have time or we should skip next week what do you think we can skip yeah we can skip yeah that makes sense okay right? so that again we are going to do it next week and right all right now we are going to practice rudram because i think march 11th is uh, um, mahashivaratri yeah we will have enough time if it is fixed yeah we have time for that so if we have finished with the see soup then we will uh, have a, a break next week then uh, we will uh, start start uh, practicing rudram for the next 3 uh, 4 weeks whatever the time till shivaratri round whether there is chanting kusho ratri or not but this will be ready okay yeah okay so um, we want to learn anything new till march then okay till march uh, okay. 11th so probably for 4 weeks we'll practice uh, today, well. Um, today is what um give it February 8th yes yeah, so uh, we have four weeks right um, 15 yeah. 22 1 mm -hmm. and 8 four weeks so we are going to miss one week right the next week you know you can practice uh, if you want uh, next week okay on individually you can practice on your own and then we'll have three weeks of practice for rudram and chamara okay okay we follow this right the hips that's good Okay, any questions? Anything? Okay, then let's do three loka samasthaha and then uh, we'll uh, meet uh, two weeks from uh, today and uh, you can practice in the meantime Rudra manchamaga when you're on. Okay, that you can uh, chant with the recordings or whatever. Okay. Om, loka, ha. लोकाः नमो भवन्तो ॐ शंश ॐ श्रीगुरुभ्रो हरिः ॐ वेरि बडि